नारायणीयं दशकं नैन्टीन् मीटर्वंशस्थं पृथोस्तुनप्ता पृथुधर्मकर्मढः प्राचीनबर्हिर्युवतौ शदधृतौ प्रचेदसो नाम सुचेतसुतानजीजनत्वत्करुणाङ्गुरानिव पिदुसिसृक्षा निरतस्य शासनात् भिरदा दशापिधे पयोनिधिं पश्चिममेत्य तत्तडे सरोवरं सन्तदृश्युर्मनोहरं तदा भवत्तीर्थमिदं समागदो भवो भवत्सेवकदर्शनादृतः प्रकाशमासाद्य पुरः प्रचेत सा मुपादिश्यद्भक्तमस्तवस्तवं स्तवं जपन्तस्तममी जलान्तरे भवन्तमास्ये विशदायुधं समाह भवत्सुखास्वादरसादमीश्वयान् बभूव कालोद्धुववन्नशीख्रता तपोभिरेषामधिमात्रवर्धिभिः स यज्ञ हिंसा निरतोऽपि पावितः पिता पितेषां गृहयादनारदप्रदर्शितात्मा भवतात्मदां ययौ कृपाबलेनैव पुर प्रचेतसां प्रकाशमागाः पदगेन्द्रवाहनः विराजचक्रादिवरायुधां शुभिर्भुजाभिरष्टाभिरुदञ्चि दद्युदिः प्रचेतसां तावदया चामपि त्वमेव कारुण्यभराद्वरा न दाः भवद्विचिन्तापि शिवाय देहिनां भवत्वत्सौ रुद्रनुदिश्च कामदा अवाप्यकान्तान्तनयां महीरुहां तयार मध्वं दशलक्षवत्सरीं स्तुतोस्तुदक्षो ननु तत्क्षणा च मां प्रयास्य मुदैवतान् ततश्च दे भूदलरोधिनस्तरून्क्रुधा दहन्तो द्रुहिणेन वारिताः तृमैश्च दत्तान्तनयाम वाप्यतां त्वदुक्तकालं सुखिनोभिरेमिरे अवाप्य दक्षं च सुतं कृताध्वराः प्रचेदसो नारदलब्धया धिया अवा पुरानन्दपदं तथा विधत्वमीशवधालय नाथपाहि मा सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द